ारायणीयम् दशकम् 86 मीटर श्रद्धरा साल्वो भैष्मीविवाहे यदुबलविजितश्चन्द्रचूडाद्विमानम् विन्दन्सौभम् समायी त्वयि वसदि कुरुं त्वत्पुरीमभ्यभाङ्क्षीद प्रद्युम्नस्तम् निरुन्धन्निखिलयदुभटैर्न्यग्रहीदुग्रवीर्यं तस्यामात्यं द्युमन्दं व्यजनिजसमरः सप्तविंशत्यहान्तः हा। तावत् त्वं रामशाली त्वरिदमुपगधखण्डितप्रायसैन्यं सौभ्य शं तं निरुन्धा स च किल गदया शार्ङ्गमभ्रंशयते मायातादं व्यहिंसीदपि तव पुरतस्तत्त्वयाभिक्षणार्थं नाज्ञायीत्याहुरेः तदिदमवमदं व्यास एवन्यषेधीद मङ्क्षु साल्वोऽपि चक्रेणोत्कृत्ते दन्तवक्त्र प्रसभमभिपदन्नभ्यमुञ्जद्गदां ते कौमोदक्याः दोषावपि सुकृतनिधिश्चैद्यवत्प्रापदैक्यं त्वयि धृतमनसा मोक्षणार्धोऽवतारः त्वय्या यादे धजादे ध जादे किल कुरु सदसिद्युदके संयतायाः क्रन्दन्त्यायाज्ञसेन्याः सकरुणमकृधाश्चेलमालामनन्दाम् अन्नान्तप्राप्त सर्वांशजमुनिचकितद्रौपदी चिन्तितोऽधप्राप्तः शाकान्नमश्नन्मुनिगणमकृधास्तृप्तिमन्दम् वनान्ते युद्धोद्योगे धमन्त्रे मिलति सति वृद्धः फल्गुनेन त्वमेकः दूत्यकृत्पाण्डवार्थम् हेष्मद्रोणादिमान्ये तवकलुवचने खलु वचने धिक्कृते कौरवेण व्यावृण्वन्विश्वरूपम् मुनिसदसि पुरीं बन्धुकादे दयालुम् खिन्नम् तम् वीक्ष्य वीरम् किमिदमयि सखे नित्य एकोऽयमात्मा को, को वध्यः कोऽत्र हन्ता तदिह वधभियम् पुरोच्य मय्यर्पितात्मा धर्म्यम् युद्धम् चरेति प्रकृतिमनयथा दर्शयन्विश्वरूपम् भक्तोक्तं सेधभिष्मे तव धरणिभरक्षेपकृत्यैकसक्ते नित्यं नित्यं विभिन्दत्ययुधसमधिकं प्राप्तसादे पार्थे निःशस्त्रत्वप्रतिज्ञां विजहदरिवरं धारयन् क्रोधशाली वाधावन् प्राञ्जलिं नदशिरसमधो वीक्ष्य मोदादभागाः युद्धे द्रोणस्य हस्तिस्थिररणभगदत्तेरिदं वैष्णवास्त्रं वक्षस्याधत्तचक्रस्तगित रविमहाः प्रार्थयन् सिन्धुराजं नागास्त्रे कर्णमुक्तेक्षिदिमवनमयन् केवलम् कृत्तमौलिम् तत्रे तत्रापि पार्थम् किमिव न हि भवान् पाण्डवानामकार्षीत् युद्धादौ तीर्थगामी सखलु हलधरो नैमिष्यक्षेत्रमृच्छन्न प्रत्युद्धायि सुदक्षय तत्पदे कल्पयित्वा त्यज्ञघ्नं बल्वलं पर्वणि परिदलयन् स्नानतीर्थो रणान्ते सम्प्राप्तो भीमधुर्योधनरणमशमं वीक्ष्य यादपुरीं ते संसुप्तद्रौपदेयक्षपणहदधियं द्रौणिमेत्य त्वदुक्रिया तन्मुक्कृतं ब्राह्ममस्त्रं समहृदविजयो मौलिरत्नं च जह्रे उचित्यै पाण्डवानां पुनरपि च विशत्युत्तरागर्भमस्त्रे रक्षनङ्गुष्टमात्र किल जठरमगाश्चक्रवाणिर्विभो त्वं धर्मौकं धर्मसूनोरभि दधदखिलं छन्दमृत्युः स भीष्मस्त्वां पश्यन् भक्तृभूम्नयि वही सपदि ययौ निष्कलब्रह्मभूयं संव्याज्याधाश्वमेधायिस्त्रिभिरधि महितैर्धर्मजम्पूर्णकामं सम्प्राप्तो द्वारकां त्वं पवनपुरपदे पाहि मां सर्वत्र गोविन्दनाम सङ्कीर्तनं गोविन्द गोविन्द